शुभ्राया तमश्वि स्वगिरो दस्राजुषाजुवाको हर्यानि च प्रतीभृता भीतम्नाः प्रबान्धान्त्रिमध्यान्यस्वरम् गन्त्रम् हवितो भीतये मे हव्यो मनो नोजवारि अर्तिरोरजाम् अश्विना सोजीः स्वभ्यम् सूर्यावसूर्यानः अयम् हयद्वाम् लेवया भुवद्रीरूध्वो विभक्ति वसुद्युपभ्याम् विप्रापवृदिदहव्यैः यद्वाम् भोजनम् वस्मिन्यत्र एव विष्वङ्गम् योगम् यो वानम् दधते प्रियः सन् उदत्यद्वाम् दुरते अश्विना भूच्यवानाय प्रतीत्यम् भे अधियद्वर्पोधिधः म् भुज्यमश्रीनासकायोजो मध्येवादः समुद्रे येम्बरिणधरायो जिवापोः मृगाय चिज्जसमानाय सक्तमुदस्रूतम् दैवे हूयमाना भग्न्यामविम्बरमो नस्तर्यम् यच्छनाश देवि येन स्यारुजगते सूक्तैरपुरसाम् सुमन्मा इशादम् वर्धदज्ञापयोभिर्यूयम् वा तस्वस्तिभिः सदा नः आवाम्रो रोदीमद्वधानो हिरण्ययोभिर्जास्वैः िषाम् पोलापतिर्वाजिनीवान् तव प्रधानमन्धुरोमनसायुक्तः द्विषोदे च गच्छो देवयन्तेः पुत्रा चिद्या मामश्विनाथरा स्वमर्वागस्रा निधिम् मधुमन्तम् विबादः ्वा आजान्दान् बाधते मात्त श्रियम्बरियोगा वृणीतसूरो दुहिता परीतज्ञायाम् यद्दे भगन्तमवधे परिध्रन्तम् प्रयोगाय नसिरावस्त परिजादी स्य वामरामस्तुश्रारथो युगानः परिजातिवर्तिः तेन नश्वरसोऽष्टौन्यश्रिरावहतम् यज्ञे अस्मिन् नरा गौरेव विद्युतम् तृषाणास्माकमज्जसवनोपाजातम् रुद्राहि वाम् मतिभिर्भवन् यन्ताः युवाम् भज्युमवभिद्धम् तद्रमुदोहुरर्न सोऽश्रीधानैः श्रैरभ्यतिभिर्दम् सनाभिरश्विना पारयन्ता नो मेह भवामितम् युवानायाधिष्ठम् भर्तिरश्विना विरावत् निगरतम् चूरीयम् आविश्वमानाश्विनागरम् पृथिव्याजी सु न भ्रष्टोक्तिसावान्श्च निष्ठातापि घर्मो मनोजोने पिवाचिनसुरायुगारः दिवो जग्ोषाधीषुभिक्षु निश्चे सञ्जना जदातुहम् वा निष्टम् देवापोषधेष्वत्सु यद्योग्या पुरो निरत्रा अस्मे अनुपूर्वाणि च चतुर्जुवानि सुन्दादिविना पुरोऽण्यभिब्रह्मा निरक्षाधेनाम् निष्प्रजा तम्बरमाजनायास्मेवावस्तु सुभदिश्चनिष्ठा जोवाञ्जज्ञो नाहविष्मान् कृतब्रह्मादमजो भवादि उपमप्रजा तम्बरमापतिष्ठमिवा ब्रह्माण् निरत्यन्ते युवाभ्याम् यमश्विगीमांसो वृत्तिम् मृषनायुर्वेदा इमा ब्रह्माणि युवयोन्यग्म्यूजम् वा स्वधा नः नापस्वसो अश्वामघा गोमघा वाणकम् उपायानम् वामस्विहम् वा युतमस्मदनी रामी वाम् बाणक्रम् राधीताम् नः स्याम् ज्योष्टौ ध्व नो वर्तयन्तु स्योमागव श्रीमृदयग्रश्वेनापसुमन्त्रम् वहेताम् ओ आम् दशो अस्ति भोधास्त्रिमधुरो ोपाजातमभियद्वाम् विश्वस्यो निगादि युपद्यवाहनम् जरसोक्तम् निवेदवस्वम् निरम्भस्तमधस्पत्तमध्रिम्भ्याः भुरम् श्रीधिरेधाः तमन्तः यम् मीषा यमश्रि नाकी श्रीमां सुवृत्तिम् वृषणायुरेधाम् ब्रह्मा निर्वयोन्यग्मन्योऽयम् पात स्वस्ति विश्व आ गोमतानादारथेनाश्वादा पुरुश्चन्द्रेण जातम् अभि वाम् विश्वानियुतः स चन्दे स्वार्गया श्रियातन्वासुभाना ेऽभिरुपातपर्वात्सजो न सत्याः सख्यावित्यादि समानो बन्धुरुतपस्य चित्तम् उदुस्तो मासो अशिरोग्रम् जाभिब्रह्मादेवीः आविवासन् रोदसीघेवे अच्छाविद्रो न सत्याविभक्ति दच्छं चेदच्छम् चिराधप्रभा ब्रह्माणि कारवो भरन्ते ओध्वम् भानुम् सिता देवो अश्रे गृहलग्नजः सविधाचरन्ते आपस्तादान्ना सत्या पुरस्तादास्वीनायातमधरानुरक्तात् तः पाञ्चजन्येन राजारूयम् अत पदमसत्पादमश्च प्रतिसोमम् दे वयम् अश्विनाजीः न्यप्रियो मनोषस्वादिभो दे देवम् ददे दे च अस्मिकम् मधोः अश्विवाम् बोधे विदधेवान् अयेन यज्ञम् वधाभूना इमाम् सुक्तिम् रेषुधाम् सृष्टिमेव प्रेषितो वामबोधे प्रतिष्ठो वैतरा त्या वह्ने गमतो सबन्धान् शदवत्सराणि शिवेन आ पश्चाताहन्ना पुनः श्रीनाजातमधरात् दत्तात् पाञ्च जेन राजा यूम् पास्वस्तिः इमाम् दिविष्टय उश्राह वन्दे अश्विना अयम् वा मत्वे वा देशजीवसूविशम् विषम् हि गच्छ इमम् चित्रम् दधर्भोजानन्न धु आयातमुपभूषम् मध्वः पिबतमश्रिया दुग्धम् पयो गृहनाजेण्यावसुवानो मध्यष्टमागतम् अश्वासो गृहाम् युवाम् दीयम् रक्षोजभिर्न राजयेभिरश्विना देवाजातमस्मयुः अधारो अश्विराक्षरः सन्दसूरजासतो भगवद्भ्यो ध्रुवं यशच्छर्जिरस्मभ्यङ्गजे जलुरा विकासो रथा याता रो स्वेन समादासुजुर्नराबुदक्षीयन्विवक्षिणीम् योधि विचारदे नामाहि मानमागात् अपधृगस्तमा आमरुष्टमङ्गीरस्तमापत्या महेनो अद्यसु विगाय बोध्युरो महेसौभगायप्रयम्भि चित्रम् ये यश्चेते विभक्ते सुमानुविश्रपश्यम् एतेत्ये पाण्डवो दरिसदाजाश्चित्रा गुढतो अमृता सागुः जनयन्तो दैव्यानि प्रधान्या पृणन्तो अन्तरिक्षाव्यस्तुः युजानापरागा त्वञ्चक्षिते परिसद्यो जीगाति अभिपश्यन्तिपनश्च पदी वाजिदेवधी सूर्यस्य योगाधिमागाराजयी शैवसूनाम् निषिष्टुता जनयन्ति महोद्युरावृच्छदिवह्जना प्रतिद्युता रामासो अश्वास्तित्रापहन्तः जातीशुभ्रा विश्वविशारसे दधा आदिरत्नम् विधते जना सत्या सत्येभिर्महती महद्भिर्देवी देवेऽभिर्यजतायजत्रैः ृजदृशम् अश्वावत्पुरुभूरो अस्मे मानोः परिह्यः पूरुषदा निले कर्यूयम् पातस्वस्तिभिस्त्योतिरमृतम् देवो अश्रे रत्वा देवानामयष्टुराविरगर्भुवणम् विश्वामृता देवयानाद्धो वसुभिष्टिताभूजगेतुर्दधिहनेभ्याः आनि िबहुलान्यासनजा प्राचीनमुदिता सूर्यस्य यतः परितारी वाचरञ्जुषो ददृक्षेण पुनर्यतीव वा न चिद्देवानाम् दमाद आसन् मृदावारः क्रवयः सूर्यासाः गूढम् ज्योतिः पितरोहन्वृन्दम् सत्यमन्तानयन्नुषासम् े अधिसङ्गतासः सञ्जानते न जातन्ते हस्ते ते दे देवानामीलन्ते व्रधान्यमर्थन्तो वसुभिः प्रचित्वा सोमीरीलते प्रतिष्ठा वृषद्बुधस्तुभगे दृष्ट्वा साः गवान् नेत्रीवाजपत्नी नूच्छोषस्तु जाते समाजारस्व येषा नेत्री राधादस्सूनुदानामुरा गुच्छन्तीभ्यदेवैः येभ्यः सुराम् रयि पस्मे दधानायूयम् पात स्वस्ति विश्वदा नः ग्निस्वर्वाधमानातमांसि विश्वम् प्रतीति सर्वशास्थातृसद्वासो बिभ्राति सुक्रमस्वै हिरण्यवर्णा सुहृशीकम् भग्वाम् माता नेप्र्यह्नामरोधि देवानाम् तक्षः सुभगा वहन्ति श्वेतम् नयन्ति सुहृजीतमस्वम् उषादर्जर्या चेत्रामिस्वा प्रभूता र्वीम् गव्यो दिमभाजम् यावे भावचोदय राधो गृहदे माधूनि अस्ते श्रेष्ठे शर्भाव इषम्पादिनः ल्पा बृहदाोरिष्पदास्मभ्यम् रक्षि प्रतीश्रीभक्तिर्ज रजे सिद्धिवित्रामतिभिर्घृणन्ताः कुशालाः दिज्योतिशादेवी एता भूत्या प्रत्यादृशम् पुनः देवयो अतीरम् यज्ञमग्निमपा अगाधृष्टम् अथे निरो पश्यन् दुर्ति आस्थातुरथम् सुषया युज्यमानमायमष्टादृजो वहन्ति प्रतिवाद्य सुमनासो बृहन्तास्माकासो भगवानो भयम् च इल्विलायध्वरतोस्तदा नः यूषापदच्छा आजनाम् प्रत्यक्षिणेर्मानुषेर्बोधयन्ति संदृग्भिक्षभिर्भानुमश्रेद्भिसो यो रोदसीतक्षा वः दिवो अन्तेष्वतो सन्देगावस्तमावर्तयन्ति ज्योतिर्यच्छन्ति त हि देव बाहू अभूजुषा इन्द्रतमा मधोऽन्यजीरन सुराजमांसि दिवो देवी तु हिरादधात्यङ्गीरस्तमा सुकृदेवसूनि ो राथोऽस्मभ्यम् रास्त्वयावस्तोद्रभ्यो गणः यान्त्वा जगजुर्वेशभस्यारवे नोद्रे रौनो देवं देवं राधसे चोदयन्त्यस्मभ्यक्सूलः जीवयन्ति युद्धहन्ति नः स नये कस्तिभिः सदा नः प्रतिष्ठो मेभिर्भम्वसिष्ठा दीर्भिर्विप्रा सप्तसमाबुद्धन् विवर्तयन्ति प्रजासी समन्ते आविष्टन् नी भुवनानि विश्वा येास्यामाजर्दधानागोढी ज्योतिषोषा अरोधि अग्रजे वनिरग्रा प्राची तत्सूर्यम् यज्ञभग्निम् अश्वावतीर्गोमातीर्नपुषासो वीरवती सदामुच्छन्तु भद्राः ृतम् द्वारा विश्वत प्रपीतायुजयं वा तस्वस्य विश्वतानः भद्रन्नपी वातरमनाः ओ हरिः ओद्योपदस्यायद्योच्छन्ते दुहितादिवः अभो महि व्ययतिषक्षादे तो ज्योतिष्कृणोति सूरीश्रिया श्रेसोर्यम् नक्षत्रमजिवर्यस्य च सम्भत्वेन गमे रथित्वा दुहितर्दिपुषो जीवा भूद्महि स्पन्मदासुषे अस्यास्ते प्रमाजीवने गजनम् श्याम मातुर्न सूनवाः तच्छेत्रम् राधाभोषो यद्वृत्तमम् यत्तेवोर्मभोजनम् भद्रास्वभुरदा मयि श्रवः सूरिभ्यो अमृतम् वदनद्वानम् वाजा अस्मभ्यम् गोमगः सोदयित्री भुवनः सूरदानद्विषावोच्छरवश्रिया इन्द्रावरुणा युवनदाय नो विसेनाय धर्मा यच्छरम् ीर्घप्रायपनुष्ठति वयम् जाय मन्द्रा नासु दोढ्याः सम्रा रण्यस्वरा रन्यगुच्चदेवाम् महान्ताविन्द्रावना महावासु विश्वे देवादः परमे अन्भवान् खान्यमो जना सूर्यमैरयनम् देवि प्रभम् इन्द्रावरुणामले युवा विद्युत्समृताना सुबन्नायो युवाम् क्षेमस्य प्रसवे निगज्ञः ईशानामस्व भुभयस्य काल इन्द्रावरुणा सुरवाह वाहे रुदाय दिवालीशा नन्दुपश्चि रुद्र शुभमञ्जयी महे शुल्काय वरुणस्व जय त्वम् मजामिमन्यस्वयम् भ्रमानिरद्धभ्रेभिरन्यः प्रवृणो दिभूयस न दमम्बो नो जिगालितावरुणानतवः कुतश्च यस्य देवागच्छथो भीतो अध्वरमनसंवर्तस्य न तदे परिह्रुरिः ख्यमुदवार्याप्तम् मा दीकमिन्द्रावरुणा नियत्सम् अस्माकमिन्द्रावरुणा भरे भरे पुरो योधा भगवतम् मृष्ट्योचागम् भुभजे अध स्मृतिर यस्य साधु अस्मे इन्द्रो गरो न मित्रो अर्जुवाद्युम्नम् गच्छन् जि सप्रसा अभद्रम् ज्योतिरजिते रता देवस्य स्वम् दर्मा नामहे युपान् न रापस्य मानाथाप्यम्भ्यन्तः पृथुपरि वो च मृद्राहतमार्यादामिन्द्रावरुणा समयन्ते यस्मिन् भवनप्रियम् यत्राभयम्पत्रा रन्द्रावरुणाधीमोचरम् म्भूम्या अन्ता ध्वनिरा रक्षतेन्द्रावर्णाधिविघोष आरोहते अस्तर्जना नामुपमामरा तयोर्वागपदाहवनश्रुतागमम् इन्द्रावर्णाधनामिदम् ब्रह्माण्येकाम् शृणुतम् गवीमणि सत्यातृत्सू नाम भवद्ब्रोहीति इन्द्रावरुणापध्यात वन्द्रिमाघान्यजो वरुणा परादरः युवम् यिवस्व उभयसरा जलोघनोपथम् पार्ये दिवि युवाङ्गभयाम् शपत्सो वरोनञ्चसादये यत्र राजाभिर्दसभिर्दिबाधितम् प्रसुदासमासुभिः सह तथा राजा न सबीता अयज्जवत्सुदासामिन्द्रावरुवानयो सत्यामुस्तु निर्देवादे राम भवन् देव भूर्युः ज्ञे परियक्ताय विश्वतः सुदासामिन्द्रामरुणामधिक्षरम् श्रीज्ञो यत्र न कमर्भिनो माधिया धीमन्तोऽसपन्तः वृत्तान्यः स विधे रुजिघ्नते व्रतान्यो अभिरक्षते सदा ृणा सु भक्तिः अस्मेयिम् यच्छनम् अस्मेयिम् रो वरुणो मित्रो हर्जमाद्युम्नम् यच्छन्तु महिशर्मा सप्रथा अभ्रम् ज्योजिरजिते देवस्य श्लोकम् स विधर्मा नामहे ीरिन्द्रावरुपोरूपाधिगाति युवो राष्ट्रिम् जलौ जलौ सेशी श्रीतः परिणो हे नो न विद्याः कृणवधुलोकम् कृतन्नो यज्ञम् विदधे कृतम् ब्रह्माणि प्रशस्ता उभो रयद्देवदूतो रयेणस्वार्याभिरूतिभिस्त्रेतम् अस्ये इन्द्रावरुणा विश्वपानम् रयम् धत्तम्बसोमन्त्रम्बुरुक्षणम् दयते ेव इयमिन्द्रम् मरो नमष्टमेगे प्रावत्तोनूजाना सुरत्नाः सो देवनी लिङ्गमेव यूयम् पात स्वस्ति विश्व अरुष्टता ृतप्रादीवादेवी स्वर्धम् देवाभूदे भूदेव निजभक्पदम् रुणा भविद्रा कृष्णीरजिप्रवृत्ता वृत्राण्यप्रीलीहन्ति स सुकृतरुदुरोमस्वामि यस्मान् वरो नमष्टमेकेतन सुरत्रासो देववी लिङ्गमेव यूयम् पाद स्वस्ति विश्रात्पश्चिविस्तम् भरो क्षत्रम् पत्रच्च भूमन् उदस्वयान्वादेन कदान्वा अन्तर्वरु भुवानि किम् मे हव्यामृजुरेण कदा मृपम् सुमना अभिख्यम् निरुच्छेदेनो वरुणदिरुक्षूपो येमिति विदुषो विवृक्षम् सपानमिन्मे कालशिलाहनम् फलोऽभ्याम्बरु नो गृणीतेणज्येष्टम् यत्सोदानम् जिघान्तस्वधावो वत्वा नेनामसा दुरीया अवदृग् निमित्या श्रो भयाभयम् च गृहातरोधीः अवराजन्प चभत्सन्नताो दक्षो भगवन्तिर्विभीर गोपतिः अस्ति जाङ्गीयदौ भारे स्वप्रस्थने तदेतस्य प्रजोता देवा जभो नयेगाः अचेदय रचितो देवो अर्योगत्सम् राजे कवितारोजुनादि अयम् सुदुभ्यम् वर्णस्वधामो हृष्ट उपसृतश्चिदस्तु से मे समुयोगे नो मस्तु यूयम् पाकस्वस्तिभिः सदा नः सर्वो न सृष्टो अर्वादेभ्यः आत्मा देवादोरीनात्मसन्न समान ीवे विश्वादे प्रियाणि परिष्वतोपरोनस्य स्वदिष्टा पश्यन्तिरोदजीष्मेकवयोधीराप्रदेतसोदयिषयम् उपाच मे परोणो मे धीरा यत्र सप्तनामाज्ञा विभक्ति विद्वान् बलस्य गुख्यावोचल्युगाय विप्रभुपरायशिक्षन् तिस्रोज्या मोलीगा अन्तरस्मिन् तिस्रो भूर्वा राष्ट्रभिः कृप्रेम् कम् हिरण्यम् शुभेऽहम् अवसिद्धम्भरोद्यौरेवणश्व मृगस्तु विष्पामानस्व पारक्षत्वयादि च कृषे जागो वयम् स्यामरुदेहनागा अनुव्राण्यदीते वाम्बरोम् सहस्राणम् बृहन्तम् अधान्मस्य सन्दृहम् जघन्वा नग्दे कम्बरोरस्य मंसि यदस्मन्नधिबाहु अन्धोभिश्च नाम्रयत्समुद्रवीरया भवध्वयम् अधियदपांशभिश्चेङ्खया वहै सुभेदाम् अचिष्टम् भवरो लो नाव्या धादृशिम् दया रसपाभोभिः सोदाणम् वा अत्यादिख्या वा भूमस्व जा वहेलगमपुराचीत् निहन्तम् मानम् वरुणस्वधावः सहस्रद्वारम् जगमा गृह्णन्ते ोचत् स्वस्ति विश्वयम् गृहमायन्महङ्गम् मृदासुक्षत्रमिळय तिरेमित्री अद्रिवः मृदासुक्षत्रमिळय यत्त्वसमहीया गमासुते क्षत्रमिलयिवाम् संणा सुक्षत्रमिलय यत्किञ्चेदम् वरुणीभिद्रोहम् आश्च र्यभिधूमन्दः सुदासाः तस्याम् ईशानाय प्रभूतिम् य सा लक्षुजिम् सोमम्भ्यम् वायो कृणो ऋम् वर्तेशस्वम् जातोजातोजायते भाजस्य राजेन्दुम् यज्ञदूरोदधीमे राजे देविधाति देवम् अथ वायम् नियुत स्वश्च तस्वारस्वेतम् वसुधिरिके उच्छुतस्विना हरिप्रातो ते ी ज्यानाशेन युक्ता सक्रतो न भवन्ति इन्द्रवायोगीरवासंरम् वामी रामनयो रवृक्षस्वदन्ते ेभिर्वसोभिर्भिरन्यैः इन्द्रवायोजुरजोभिः समाजुरपद्भिर्भीरैः सुदानाम् सुन्दोनस्रमासोभिक्षमाना इन्द्रवायोः स्वयश्वर्येण दूतानदभाय गोपा मातश्च बाधसर पूर्वेः इन्द्रवायो मादम् जागन् श्रीवो अन्नान्द्वयस्वभेदा श्वेतस्य भक्तजीयतामभिष्टेः ेषर्वेष्वस्व पत्याी चक्रुः यावत्तरस्तम्भो योजानधारी ध्यानाः शुचिम् त्वम् श्रुतिपादमस्मेन्द्रावायुसदम्बरिदम् निजुवारायुतस्पार्हवीया निज्व इन्द्रवायुसरसञ्जातपर्वाच इदम्भेदम् मध्वो अग्नवधप्रेदानाविभोमुक्तमस्मे याम् सतम् नियुतो या सहस्रमिन्द्रवायुविश्वम् ते भिर्वादम् न राभृतश्रमध्वाः सर्वम् दोदश्रवासोऽभिक्षमाणा इन्द्रवायो सुकृशिष्टाः वाजयम् दस्वसे हुरेव यूयम् वा दस्वस्तिभिश्व ीपालपानसहस्रम् ते जीरो विश्वार उपो दे अन्भोपद्यमरा यस्य देवदधिवेपूर्वतेयम् रसोता जीरोहध्वरेश्वस्तात् स्वमनिन्दाय मालवेपि मध्यै प्रयद्वाम् मद्भोः अग्न्यम्भरम् र्यवो देवयम् तस्वचीभिः प्रजाभिर्यादीदास्ताम् द्या समर्था नियद्भिर्वायविश्वरे दुरोमेयम् सुभोज संयुमस्वनिवीरम् गर्गमस्वयम् च लभः देवायव दे इन्द्रमादनासादेवासो निजोदनासो हर्यः ो नृत्राणि सूर्यभिश्चामदा गत्वा युधारमिताय आनो निः सदनीभिरध्वरम् सहस्रीभिरुपायाहि लङ्कम् वायो अस्मिन् सेवालयस्व यूयम् पादस्वस्तिभिः सदा नः सते ीतावाच्यभूषते ज्येष्ठाः भूतम्भांसा यम् नौ रायो यस्य भूरे क्रिन्द्रम् वाजस्य स्थवीरस्य गृष्वेः उपोहयद्विगमम् वाजिनो गुर्जेभिर्विप्राप्रमादिमिच्छमानाः अर्वम् तो नराष्ठाम् न क्षमाणा इन्द्राग्नीयोतो नरस्ते म् पूर्वभाजम् इन्द्राज्ञासुभद्राप्रणो नव्येऽभिश्चिरम् सङ्गन्महि सति स्पर्धनलाले ललो लुजासूरसायलैते इमां अदेन्द्राग्सौमनसातम् नोद्धि पारिमम् नाथे अस्माना वाम्वद्धर्वमृतीरवाजैः सोऽम् वरो रमिन्द्रम् बोधेः यच्छमागश्चर्यमादिति अग्नः सुधाना स यिष्टेर्योस ताभ्यस्यामवादाने स्वस्ति विस्तदानः भूयसूरि अभ्रा दृष्टिरिवाजिनि श्रुतम् जर्हवमिन्द्राज्ञाः ईशाविष्टम्भ्याः नरेन्द्राये मान रीरघतम् भिरे इन्द्रे अज्ञानमोहसु व्यक्तिमेभिप्राः सभूतये सपादो वाजसातये भिर्विवन्यवप्रजस्वं लोहवामेः मेधसा दासनिश्ववाह इन्द्राग्ने अवसारमस्मभ्यम् च ऋषणीसः मा दुःसृन्दीषत मा कस्य नोहरारुणोक्तिप्रणम्मत्यस्य इन्द्राग्ने समा यच्छतम् रण्यभूद्वामस्वादीमहे इन्द्राधी यत्समासुन इन्द्राजो सप्ली मन्दासपर्यवाः मुक्ते मायामन्दाशिला गिराङ्गूहैयामिवासकः विदुष्म् संवर्जम् दुर्विद्वान् संरक्षसिम् ओगम् हन्मनाहतमुदधिम् हन्मालाहतम्